न्द्रं चलं निर्वपेत् पशुकाम ऐन्द्रा वै पशुमगीन्द्रमेव स्तेन भाकधयेनाप धावति जगेवास्मै पशून् प्रयच्छति पशुमानेव भवति चलद्भवति स्वा देवास्मै यो ने पशून् प्रजनयतीन्द्रायेन्द्रियावदे पुरोडाशमेकादशगपानन्द ेन भागधे येनोपधावति सेवास्मान्द्रियं पशोन् प्रयच्छति पशुमानेव भवतीन्द्राय घर्मवदे पुरोणाशमेकादशकपालन्यर्पवे ब्रह्मवर्त स कावा ब्रह्मवर्चसं वै घर्म इन्द्रमेव घर्मवन्त युष्पेन भागधे येनोपधावति सगेवास्मिन् ब्रह्मवर्च संप्रधाति ब्रह्मवर्तस्येव भवतीन्द्रायर्कवदे पुरो शमेकादशपालन् निर्वपेदन्न कामोऽर्को वे देवानामन्नमिन्द्रमेवार्कवं कर्गुस्पेन भागधे यदिन्द्रायेन्द्रियावदात्मानमेवास्य तेन करोति यदिन्द्रायार्गपदे भूतये वानाद्ये प्रतिष्ठति भवत्येवेन्द्रायागुं भोमु च पुरोडाशमेकादशकपालन्यपात्मनागृहे तस्यात्मात्मावागुम्भेन्द्रमेवागुं भो च ग्रीष्मेन भागेयेन पात्मनागुम्भ ्राय वै वृथाय पुरोडाशमेकादशकपालन् निर्ववेद्यं मृथोऽभिप्रवेपेनन्द्राष्ट्राणि न्त्रायत इन्द्रायार्काश्वमेधवते पुरोणाश्वमेकाभिषगपालन्यम् महायज्ञानापनमे इन्द्रायान्मृगमे पुरोडाशमेकाशजगवानन् ने ग्रामकामयेन्द्रमेवान्वृथव्यश्वन भागधे येनापधावधिषदेवास्मे स जाताननुकान्तरादिग्राम्येव भवतीन्द्राण्यैशवम् गर्ववे यस्य तेनासकुंसितेव स्यादिन्द्राणी मै सेनायै दे देवतेन्द्राणीमेव स्वेन भागधे येनापधावधि सैवास्य तेनागम् सद्विश्च विबम्ब जानपित्राधिष्ठन् नान्यमे हस्ततो बम्बजामुद तिष्ठण्डवामेवैन्यायमपिनीयका वेदयतीन्द्राय मन्युमते मनस्पते पुरोडाशमेकादश न सङ्ग्रामे संयत्त्रियेण मे मन्यता मनसा सङ्ग्रामं च यतीन्द्रमेव मन्यमन्त मनस्पन्द युष्मेन भागे येनोपधापति स्मिन् मन्यं मनोदधाममेतामेव निर्वपेद्यो हतमनः स्वयं पापयि पस्यादेतारिवा एतस्मादमक्रान्तान्यथैकहतमनः स्वयं पाप इन्द्रमेव मन्यमन्त्रस्पन्त भागधे येनोपधापधिस्मिन्निन्द्रियं मन्यं मनोदधा दिन हतमना स्वयं पापोपदीन्द्रायधात्रे पुरोटाशमेतादशकपाल निर्वभेद्यः कामये तदानकामा मे प्रजासृजेन्द्रमेव दातार यस्मै न भागधे येनापधावषगेवास्मै दानकामास् प्रजा करोति दानकामास्मै प्रजा भवन्तीन्द्राय प्रधात्रे पुरोदाशमेकादशकपालन् निर्वभेद्यस्मै प्रत्तमिवसन्न प्रतापयतीन्द्राय सुत्रापुरोनाशमेगाद जगमान पुरुध्यो वा न वेन्द्रमेव सुत्रा माण्यस्पेणपधापति स एवन्त्राय तेन वरुध्यो भवतीन्द्रवेशनं देवताभिराधे सनं व्यावृतमगच्छत्स प्रजापति उपाधावत्तस्मादेतमैन्द्रमेगाद जगमान निरापत्यै दैवास्मिन्निन्द्रियमदधाक्षपदे प्रजापतिम् पुनरुपाधा प्रजापति श्रिये समाने स्यात्तस्मादेतमैन्द्रमेतादशकपालन् निर्वरेन्द्रमेव स्वै न धातिरेव ते पुराणवा भवतिशान्त्याप्रदायषक्परीशाद्यावज्लोपे शक्परिशयनम् वज्रो भूत्या इन्द्रे भवत्येव वै नवमेकादशगपालम् गर्वपेदभितरन् सरस्वत्याजभागा स्याद्वा बृहस्पत्यश्चर्य वैव एकादशगपालः भवत्यज्ञः सर्व देवताभिष्टरु यज्ञो देवताभिष्टैवे यज्ञेन चाभितरति सरस्वत्याजभागा भवति वाग्मे सरस्पति वाचैवेनमभितरति ब्रह्मणैवेन अभितरति प्रथिवे परस्तादभितरन्तमभिचरञ्जिद्वेद्वेक्य कुर्यातति प्रयुग्या एतयैव यजेताभिचर्यमानो देवताभिरेव देवता प्रतिचरति यज्ञेन यज्ञम् वाचावाचं ब्रह्मणा ब्रह्म च देवताश्चैव यज्ञञ्च मध्यतोपलितश्च न कुतश्च नोपाभ्यासो भवतिनेन नवमेकाचगपालन् निर्ववे यज्ञानापणवेदज्ञता विष्णु यज्ञो जैव विष्णुञ्च स्वेन भागध येनोपधावधिता वेवास्मै यज्ञम् प्रयच्छत उपैनै यज्ञानभत्याग्ना वेङ्घृते जलं निर्ववे चक्षुष्कामाग्नेर्वे चक्षुषा मृष्या विपश्यन्ति यज्ञश्च देवाहग्निैव विष्णुं च न भागध येनोपधावधिता स्मिं चक्षुर्धतश्चक्षुष्माणेव भवति धेन्वैवा एतत्रडुहस्तण्डुला विधुना देवास्मै चक्षुजनयति घृते भवति तेजो वै हृतं तेजश्चक्षुश्चेज दैवास्मै तेजश्चक्षुरवृन्धैन्द्रियं वै वीर्यं ेवृन्ते तावस्य वाचं प्रवदन्ती प्रवदन्ति ताविन्द्रियम् अष्टागमान निर्ववे अष्टागमानाक्षरागायत्री गायत्रम् त्याज्ञावेष्णवमेकादशकपालनिर्ववेन्दिनश्च नवनस्याकालेकादशकपाला भवत्येकादशाक्षात् ष्टेष्पं माध्यन्तिनकं सवनं माध्यन्दिनमेव सवनं द्वादशकपालन् निर्ववे यथ वनस्याने भागाश्चाद्वादहस्पत्यश्चलो यद्वादश कपाला भवति द्वादशाक्षरायनन्त्रि यथवनन्त्रि यथवनमेव देणाप्नोति देवतापि रेवदेवता प्रतिचरति यज्ञेन यज्ञम् वाचा वाचं ब्रह्मणा ब्रह्मकपाले रेवन्दागस्याप्नोति पुरोणाशैश्ववनाय मेत्वा वशायै काले यैपाथो भ्रातृव्यस्य वशानो बन्ध्या देवै शैतस्यैककपालो भवले पशुमनहत्याप्तुम् त्योऽलव्यरोचन तस्मै देवा प्रायश्चित्य मे छन्दस्मागेतगुम् सोमा रौत्रञ्चलम् निरवपन्त्यैवास्मिन् ब्रह्मवच्चमस्य तस्मादेतगुम् सोमा रौत्रञ्चलम् निर्वहे सोमं चैवरुद्रञ्चपधावधिता वेदास्मिन् ब्रह्मवर्चलम् ध्वत्वा ब्रह्मवर्चस्यैव भव वेदिष्य स्वामः पूर्णमासस्ताक्षादेव ब्रह्मवर्चसमवरुन्धे परिश्रिते या ब्रह्मवर्तरस्य परिगृहेत्यै स्मै करोति सोमा पौष्णञ्चलम् सौम्यो वे देवतया पुरुष वशभस्पगे वास्मै देवतया पशभिजम् करोति सोमा प्रजाकामस्वैः प्रजानाम् प्रजलहिता ौद्रञ्चम् निर्वेदभितरम् सौम्यो विदेवतया पुरुषेदरुद्राग्यमार्या गेवैनम् देवताये निष्क्रिय रुद्रायापितृधाचकात्रिमाच्छलि सोमा रौद्रञ्चलम् निर्ववेद्यो कामया वि सोमं वाज्ञकौशली ङ्गसितकम्भोतानिष्ठिततिशयेश्वरार्थिमार्ता नड्वादययो वह्वा वह्निदेव वह्निमा ृणोदि सोमारोध्यञ्जनम् निर्मेत्य कामय तस्मे भ्रातुमिति हेदम् वर्गार्थमधन्यादर्थम् नार्थम् वर्गिण प्रियानर्थम् नार्थमिद्वस्यादध्यादर्थम् न स्वदेवात्मा हैन्द्रमेकादशकपालन् निर्वन् मारुतकं सप्तकपालं ग्रामकामयेन्द्रञ्च मरुतश्चैतजातान् प्रयच्छन्ते ग्राम्येव भवत्या मारुतो भवति सप्तक नावे मरुतोकणशदेवास्मैतजातानवन्ते दिशमेवा स्मा अनुवर्तानम् करोमेव निर्वमे यः कामये नक्षत्राय दर्शय समदन्तभ्या नित्येन्द्रस्याम् प्रोयादिन्द्राया न ब्रूहेत्याश्राव्य ब्रूयान् मरुतो विजयति मारुतस्यान् मरुभ्या न ब्रूहेत्याश्राव्य ब्रूयादिन्द्रञ्जय समदन्तधारिह्वानाश्चन्ते निर्वतेद्यः कल्पैरण्यथा देवमपदाय यथा देवधेय न कल्पयति कल्पन्तीन्द्रमेकादश कपाल निर्ववेद्वैश्वदेवं पादशकपालं ग्रामकाम इन्द्रं चैव विश्वागश्च देवान् सेन भागधे येनपदावधितदेवास्वेशजातान् प्रयच्छन्ति ग्राम्येव भवत्यैन्द्रस्यापदाय वैश्वदेव न्द्रिये नैवास्मायदस्य जातान् परिग्रन्थायम् दक्षिणाै पृष्टये दुग्भ्य प्रियङ्गवञ्चलं निर्वचयन् मरुद्भ्याद् ग्रामकामः पृष्ट्यैवेयस्वरुतोजाता पृष्ट्यै प्रियङ मारुता खलु वेदेवतया मरुतदेवाय स्मै दृजातान् प्रयच्छन्ति ग्राम्येव भवति प्रियमतीयाज्ञान् वाक्ये भवत प्रियमेवणंसमानानाम् करोदिपदा पुरोन् वाक्या भवतिपदेव वरुन्धे चतुष्पदा याज्या जनुष्पद एव पशोनवरुन्धे देवासुरा संयत्तासन्ते देवामिथो विप्रियासन्ते स्मै चेष्ट्यायाधिष्ठमाणारुद्रेन्द्र मरुद्भिर्वरुणहादित्यै स न्द्रम् देवा ज्येष्ठायाभितमजातयस्तमानमे पृथो ्यायाजय लग्नय वसुमते पुरोणादमष्टागपालम् निर्वते सोमाय रुद्रपदे झलुमिन्द्राय मरुत्पदे पुरोणायमेकादशगपालम् वरुणायादित्यवते छलुमिन्द्रमेवैनम् भूतम् जैष्ठ्याय समानाभिसञ्जानते वसिष्ठः समानानाम् भवति हिरण्यगर्भावोहयप्रजापते सवे पुत्रंस मातरपुंसो नन्तरिक्षपुंसु वत्सविश्वाभुवत्सा भवत् उदरित्यम् चित्रम् सप्रक्रमम् न्युम्नेन संयताः बृहत्तदं सभानुना वेधदशश्वतस्तरहस्ते तथा नो नर्या कुरोणि अग्निर्भवद्वयपते रम् सत्रा चक्रामामृतानि विश्वा हिरण्यपाणि मोदये सितानमुपह्वयेतापदम् वामहद्य वाम हस्मभ्यतुम् सावीः वामस्तहिक्षयश्च देव्याम वरिष्ठा पर्वतानाम् छिद्रम् विभर्षिभिः प्रजा भो विप्रवत्पति बन्धा जिनोषि महिनि सोमादस्त्वा विचारिणि प्रदिष्टो भुभिः प्रया वाजन्न हेदन्तम् वेदमस्य अर्जुने पीठः अयः सोमोऽ यस्मैतस्मा इन्द्रम् प्रतिरमे व्यच्छ आपान्तस्वाहानस्वन्द्राय ब्रह्मजमदर्गच्छन् प्रजायन्तादिपवधः स्थुरस्यान्तर्यक्षगणते धा सपाधस्ते मरञ्जयुष्मर्यन्धते मृत्सतुल्याम् वषष्टे वृष्टभासा कृणोमितन्मे युजस्वति विष्टहव्यम् तत्पादुष्कृतयोगिरो मे योऽयम् पादस्वस्त्यभिस्तदानः प्रतस्य विवृष्टरांसामि वयुनानि विद्वान् पन्ता गृह्णामि तव समतवीयाम् क्षयन्तमस्य रजतः प्रगे किमित्ते विष्णोपरिचक्षम् भवत्प्रयत्नपक्ष्ये विष्टो अस्मि मा गत्वा अस्मदपगोहवेदत्यलोकस्तमि च बभूत आज्ञेदा दासु च लयम् िनः सो नमतः दानोतिनो दासहस्रिणो दुलो ने ब्रह्मनाग्रथिषु वर्णशुक्रमुषदो विजिद्युः अग्नर्धा द्रविणम् वीरपेशसहस्रा समोति अग्निर्हव्यमाददानाग्नेर्धामानि मानो मर्धेयातो भर घृतन्न गोदम् तनोरेवरण्यम् तत्ते लग् नरोचदस्वधावः उभयश्चन्द्रसर्पिषो दर्वे श्रेणेष्यामुक्षेभवस्व हरिवर्गस्तोतव्याभर मायोः समो उतलादेशहर्षणो रसाया प्रयाभिस्पाकम् समर्चा नियधन्वायविष्टये तु रोणे पितारेकम् सुभोजतम् वीरमग्रव्यमस्त्रियम् च राथः इन्द्रे सन्तुविवाजाः शृण्वन्तो याभिदेवा यद्रेवत स्तोता स्यात्त्वावतो मघोगः प्रेजभरिवः श्रुतस्य भो आदिभुवर्दभ्यश्चरम् निर्वमे त्यादित्यानेव भवत्येवादित्येभ्य तभ्यश्चलन् निर्मपेदपरुद्धो वाध्यमानो वादित्या वा अपरोद्धार आदित्या अवगमगितार आदित्यान धारय स्वेन भागधे येनोपधापजित मन्यस्वेद्यमानोऽस्वमादजी देयं वायमेवास्मै राज्यमनुमन्यते सत्याशीत्या सत्यामेवाधिषम् कुरुत इह मैत्याः प्रजागेव स्मैतमनदः करोद सुष्पतिनाभ्यभगुम् त्याहमादैव राष्ट्रेण समर्थयस्य गृहात् शुक्लागिश्च कृष्णाजश्च विजनिघाद्य शुक्लाश्चित्या मे देवतयावगता श्रमिण राष्ट्रमित्याहुर्य कृष्णाश्च राष्ट्रञ्चापगच्छति दिनाभगश्च दिवमादित्यभागम् निर्ववाम्यामुष्मादमुष्ये विशोऽपगन्तो हृजनिर्वभेदादित्याोऽपिषमवगमयन्ति दिनामगच्छेधान्मयोखान् सप्तमध्यमेधायामुख्या े विशोपगन्त एवं बद्धवीराषमवगमयन्ति दिनावगच्छेदेवादित्यञ्चेतनपभ्यमेवावगच्छत्याश्वत्था भवन्ति मरुताम्बादो यतश्वपि समवगच्छति सप्तभवन्ति सप्तगणामे मरुतोगण एवपि समवगत to be देवा वै मृत्योरपिभयष्ट प्रजापतिमुपाधावन्त्य एताम् प्राजापत्यागुम् शतकृष्ण्यवपत्त एव स्वमृतपदधाद्यो मृत्योर्विभेयात् तस्मादेताम् प्राजापत्यागुम् शतकृष्णान्य प्रजापतिमेव स्वेन भागयेनोपधापति देवास्मिन्नायुर्दधाति सर्वमायुर्वेति शतकृष्ण भवति शदाय पुरुषे ृतम् च समेते चत्वारि चत्वारि कृष्णधान्यवस्यात्या ब्रह्मणौ कथैव यजमानायुकथा यथा तस्मै देवाः प्रायश्चित्यमये छन् तस्मादेतरुम् सौर्यम् चलम् निरभवन्त्य ्रह्मवर्चस्ते भजतो रुक्मौ भवतो भजत एव प्रजाले दुष्टहोवास्मै ब्रह्मवर्चनधाेन सा वित्रं द्वादशकपालं भौम्ये जलयः कामयेत् हिरण्यं विन्देन हिरण्यं मोपनमेति भवत्या हिरण्यं तेनैवैनद्विन्दते न हिरण्यं नमतिविवाहेश इन्द्रियेण हिरण्यं विन्दत नेतामेव निर्ववेद् हिरण्यन्दस्यो भवत्या हिरण्यन्ते नैवेन धा मित्रो भवतिप्रदोदेवेण विन्दति भूम्यजरुद्भवत्यस्याम्बा वेतन्नश्चिरन्दश्चामेव निरवभक्ते नैवास्मिन् सोमभेतमदधा दिवाने करिन्द्रियेण सोमभेण सोमम् मेन्द्रज्ञश्यामाकञ्चलं निर्ववेत् सोमं चैवेन्द्रञ्चण भागधैर्येण स्वामेवास्मिन् द्रियगुं सोमपीठं धत्तो नेन्द्रियेण सोमपीठेन व्यर्थ्यते यत् सौम्यो भवति सोमपीठमेवावरुन्धैर्यरेन्द्र भवतीन्द्रियं वे सोमपीठ इन्द्रियमेव सोमपीठमवरुन्धे श्यामाको भवत्यैरवावध सोमसाक्षादेव रुन्धेधात्रे पुरोटा नमष्ट्यागपालन्यमेकाजकपालम् पशुकामाद्यवास्मे पशोन् प्रजनयति वृद्धानिन्द्र प्रयच्छति तथि पशुकृतमापोधाना भवन्ते तद्वै पशोनागम् रूपकं रूपेणैव पशूनवरुन्धे पञ्चगृहीतं भवति पान् काहि पदवो बहुरूपम् भवति बहुरूपा हि पदवः समृद्ध्ये जाभत्यम् प्राजा भवति प्राजाभक्त्या वै पशवः प्रजापतिरेवास्मै पशवन् प्रजनयत्यात्मा वै पुरुषस्य पथिजन्मग्नौ न भवत्यात्मानमेव दद्यमानोऽग्नौ प्रदधाति पञ्चौ याद्यानुवाच्य भवदः स्पान्तः ्रष्टोनुपरेन्द्रमपतामाग्नेयष्टाकपालमयेन्द्रमेकादृशकपालकं सौम्यञ्जलन्त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 मिष्टेन्द्रेयमष्टागपालीन्द्रमेकादशकपालकं चेजगेवन तथा नयरेन्द्र भवती तथा नयत् सौम्य ब्रह्मवर्चनश्च च सौम्यश्च तेजष्टैवास्त्यं ब्रह्मवर्चनञ्च समेते तथा ीयमेकालभेद्येयोमं विभधिस्वेव देवताकस्मै नागधय जैनापधामति सैवै न कामेन समर्थयत्युपै नामो नमत्यग्ने स्वामीयमत्यागमान निर्भयत् ब्रह्मवत्सकामो अग्नेशोमा वेदस्मेन भागधय जैनापधामेवस्मिन् ब्रह्मवच्च सन्धत्वा ्रह्मवर्त्यस्येवस्तेनाग् यच्छा मायवाजिने श्यामाकं जलं निर्मभेद्योभिगे तस्माद्वाजिनमभ्राम्यथै च क्रहेब्या द्विभाय सोममेव वाजिनग्रस्पेन भागावस्मिन् वाजिनन्द्रेवो भव ्राह्मणस्पत्यमेकाशकपाले ग्रामकाम ब्रह्मणस्पतिमेव स्वेन भागधेन प्रयच्छति ग्राम्ये भवति भवदस्य जातैरेवैनं गणवन्तः कामय ब्रह्मन् विषं विनाशय मारुतीयानभाक्युरु न्नेव वि अर्यं ने निरण्य कृपवेत् सुभर्गकामोऽसौ वा आदित्यो यमार्यवणमेव स्पेन भागधे येनोपधावधिस एवेन कम् सुभर्गम् लोकङ्गमयत्यर्यं ने नरण्यकृटवेद्यः कामये ददानकामा मे प्रजाशित्यतो वा आदित्यो यमायः खडुवेददादिथो यमार्यमणमेव स्मेन भागधे येनोपधावधिस एवास्मै दान स्मै प्रजाभवन्तर्यपेद्यः कामयेत स्वमित्यसौ वादित्यो हर्यमार्यमणमेवारणोयति यत्रषतेन्द्रो वै देवानामानुजापदा प्रजापतिमुपाधावत्तस्मानेतमेन्द्रमानशोकमेता ैवै नमग्रम् देवतानाम् परिगणयत् बुद्ध्रवती अग्रवलीयाग्रालवाक्यकरो देवै नमग्रम् परिगणयत् ज्यो राजन्य आनुजामणस्य तस्माघेतमेन्द्रमानशोकमेकाशसुखपालम् निर्वमेन्द्रमेव स्वै न भागते स एव नमग्रगम् समानानाम् परिणयति बुद्ध्रवती अग्रवलीयाग्रालवाक्ये भवति देवे नमक्रम् परिणयत्यानुशोको भवत्ये भाक्येतस्य देवताजहानुज जा वरस्वध्येयो ब्राह्मणानुज वरस्या तस्मानेतं वा बृहस्पत्यवानुशोकं जलं निर्ववेत् बृहस्पतिमेव नोपधापति स एवं समानानां परिणयति बुद्रवरीयाज्ञानुवाक्य भवतो बुद्ध्रा देवे नमग्रान् परिणयत्यानुलोको भवत्येदाख्येदश्च देवताकानुदा वरः समृद्धे प्रजापते त्रयस्त्रिकं शक्तिः स्वमाजराज्ञे ददा प्रागुं रोहिणे भवेत्तान्ते पुनर्गच्छन्तान्वेत् ताः पुनरयाचरता हस्मै न पुनरददा स्व्रवे तमेथा समावक्ष उपेष्याम्यथते पुनर्दास्यामे पुनर्दधा सागुं रोहिणीमेवोपवेत् क्ष्मात्रा नक्ष्मः लक्ष्मस्य जन्म यक्पापयक्ष्मस्त्रोविन्दत्तयेतेधा यक्ष्माञ्जन्मवेदनैनमेते अभ्रुवण्रं प्रणामहेतमावर्तगेव न उपायै तस्माकेतमारमपङ्क नैवैनम् ्रामादमुञ्चनयः पापयक्ष्मधीनस्यात् तस्मादेतमादित्यञ्चरन् निर्ववेदादित्यादयस्मेनैनमाप्यायमानमन्वाप्याय यदि नवो न भवति जायमान यदि पुराणभाग्या भवत्यायुवाजमादित्य ंशवः प्रायजन्ते च यार्थ्येवैतमेतया प्याययते न्द्रग्रस्वराजानन्दतो वेश इमान् लोकागस्ते धातु भक्तमगेतान् नादस्यादितस्पावेतन् त्रिधातुं निर्मपेतिन्द्राग ज्ञरोजमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञेयं वायिन्द्रो राजायमिन्द्रोऽधिराजोधामिन्द्रस्वराधिमानेव लोकान् शेनभागधे जेनोपधावधितदेव स्मा अन्नम् प्रयच्छन्त्यं नादेव यथावत्सेन प्रत्ताङ्गान्दुहेवमेवे लोकान् प्रत्तान् काममुन्नाद्युहवृत्ताने कपाने श्वयत्रया तया मत्तायत्रयः पुरोणाया भवन्ति त्रयदिवे लोकानेनाम् लोकानामात्या उत्तरवुत्तरो ज्यायाम् भवत्येवं ये लोकाः समर्थे सर्वेषामभिगमयन्नवद्यत्रचम्भत्कारम् वृत्या समन्माहारब्दाहाया देवासुराः संयत्तासन्ता देवासुरायन्ते देवाः पराजिज्ञानासुराणाम् वैश्यमुपायन्ते अभ्येन्द्रियम् वेद्यमपाः क्राभत्तदिन्द्रो जायत्तदम्बपाः क्रा भक्तद वरुधन्नाशक्मातरस्मादभ्यर्थो जरर्थ प्रजापतिमुपाधा भक्त मेष्टया सर्वपृष्ठया जा जयत्तये यास्मिन् इन्द्रियम् वेर्यमदधात्यरिन्द्रिय कामो वीर्यकामस्याक्तमेतया सर्ववृष्ठया या जने देवता एव देवतास्पेण भागधैर्येणोपधावजिता एवास्मिन्निन्द्रियं वीर्यं दधति यदिन्द्राय राशन्तराय नर्मपतियदेवाग्नेस्तेजस्तदेवा वरुन्धे यदिन्द्राय पारहताय देवेन्द्रस्य तेजस्तदेवा वरुन्धे यिदिन्द्राय मेहोपाय देवस्तेजस्तदेवा वरुन्धे इदिन्द्राय वै राजाय जय देवधातस्त यस्तदेवावरुन्धे इदिन्द्रायशात्पदाय देववरुधान्त्यजस्तदेवावरुन्धे इदिन्द्राय वैवताय देव बृहस्पतिस्तजस्तदेवावरुन्ध एतावन्त्यै तेजागुंसितान्येवावरुन्धौ ताने च कपालेश्व यत्रया त्रयामत्वाय द्वादश कपालः पुरो भवदेवत्वायसमन्त न्तयाश्वस्ता दक्षिणामिषत्त्वामेतयैव येताभि दश्यमाननेताश्चेद्वा अस्य देवता अन्नपतन्त्यतन्तुवाश्च मनुष्याः रजतो वैकौरेणः कृक्षुर्वन् यमयः तस्मावेदामष्टिम् निरवपदग्नय भ्राजस्पदे पुरोडादमष्टाकपालकम् शौर्यम् चरुमग्नय भ्राजस्पदे पुरोडादमष्टाकपालन्तगेवास्मिन् चक्षुरदधाद्यश्चक्षुष्कामस्यास्तस्मावेदामष्टिम् निर्वपदग्नये भ्राजस्पदे पुरोडादमष्टाकपालकम् शौर्यञ्चरुमग्नये राजमष्टागपालभ्यैव चक्षुषा मनुष्या विपश्यन्ति सौर्यस्य देवाग्निञ्च सौर्यं चागधेयेनवास्मिन् चक्षु धश्चक्षुष्मादेव भवतिना ज्ञेयो भवतश्चक्षुषीवास्मिन् तत्प्रतिदधासिखान् तेनाभिदः सौर्यमाग्नेयो भवतस्तस्मादभितो नासिघान् चक्षुषे तस्मान्नाचिकजाचक्षुषे भवदस्समानगम्भिरक्षुस्तमभ्यामुदत्यम् जातवसगुम्भस्तत्वा हरितोऽर्थ चित्रम् देवानामुदगाधनीकमिति बिण्डान् प्रयच्छति चक्षुदेवास्मै प्रयच्छति यदेवकस्य तत् ध्रुवोज ध्रुवोहगम् स जातेण भोजातम् धीरश्चेत्ताप च विध्रुवोज ध्रुवोहगम् स जातेण भोजातमग्रश्चेत् प्रापजविद्ध्रुवोज ध्रुवोहगम् स जाते भोजातमविभोश्चेत् प्रापजविधामनमस्यामनस्तरे भागे स जाताः कुमारास्तमनदस्तामहङ्कामये हृदाते मां कामयन्तायो हृदा तान् महामन दे स्वाहामनमस्यामनस्तरे स्थिकः समनदस्ता अहङ्कामये हृदा ताङ्गामयन्ता हृदा ता मानर्गे स्वाहा वैश्वदेवीम कामो वैश्वदेवा वैशजाता विश्वानेव देवान् जेन भागधे येन ये प्रयच्छन्ति ग्राह्येव भव भवति महणं वै सङ्ग्रहणं मन एव सिद्ध्रुवादिकं प्रदात ेतामासास्ते सर्वकम् यश्चैवम् विज परिधयः परिधीयन्त्यामनस्तु देवा इति तिस्राहुदेयस्तादेवावरुन्धेतये नवरुद्धा उपतिष्ठन्ते यन्न भवेत् तन्नभेतमु भवत्यदधर्पिन भवत्य तद्धियतद्धृतमभवदर्शिनः प्राणोजितस्य चेतत् काययो प्राणो जिष्पाहेन्द्रस्य प्राणोजितस्य तेजसा द्विजस्य प्राणो जिष्पाः मित्रावर्णन प्राणोजितस्य चेतत् काययो प्राणो जिष्पाः विश्वेणाम् देवानाम् प्राणोजितस्य ते तदुजेढा ृतस्य धारा ममुदस्य पन्थामिन्द्रेण दत्ताम् प्रयताम् मुरुद्भिः तत्त्वा विष्णः पर्यवश्यत्तत्वेणागव्येरयत् पापमानेन त्वा स्तोेन गायत्रस्य वर्तन्या स्याजा वरुणसोमराजन् मा देवास्मादिदेशर्म यक्षविश्वे देवाचरदक्षर्य ग्निरायुष्मान् स वनस्पतिभिरायुष्मान्ते नस्वायुधायुष्पन्तम् करोमि सोमायुष्मान् स वोढदेभिर्यज्ञहायुष्मां सदक्षिणाभिर्ब्रह्मायुष्पस्तद्ब्राह्मणेरायुष्मद्देवा आयुष्पन्तस्ते मृतेन वितरायुष्पन्तस्ते वधरायुष्पन्तस्तेनत्वायुधायुष्पन्तम् करोमि